अथ श्रीबृहन्नारदेयपुराणे पुरुषोत्तममासमाहात्म्ये दुर्वासशस्तपोवनगमनं नाम नवमोऽध्याय श्रीनारायण उवाच निवसन्त्यास्ततस्तस्याः कियान् कालो विनिर्गतः स्मारं स्मारं स्वपितरम् शोचन्त्याश्च मुहुर्मुहु शून्यसद्मनि शो संविष्टां यूथभ्रष्टां मृगीमिव गलद्बाष्पौघनयनां ज्वलहृदयपङ्कजां विनिश्वासपरां दीनां संरुद्धामुरगीमिव चिन्तयन्तीमपश्यन्तीम् दुःखपारं कृशोदरी तामाससाद भगवान् भविष्यद्बल नोदितः यदृच्छया वने तस्मिन् परमः कोपनो मुनिः यद्विलोकनमात्रेण त्रस्येदपि शतक्रतुः साक्षादिव सदा शिवः यस्त्वज्जनन्या राजेन्द्र शैशवेति प्रसादितः त्रिदशाकर्षिणीं विद्यां ददावस्यै सुपूजितः येनाहमपि भूपाल क्मिण्या सह पाण्डवौ उभाभ्यां चालिते मार्गे रथे दुर्वाससान्विते अत्युग्रया तृशा शुष्यताल्वोष्टपुटयानया सूचितोऽहं जलार्थिन्यां स्कन्धस्तयुगया पुरा गच्छन्येव पदाग्रेण गच्छन्नेव पादाग्रेण सम्पीड्य वसुधातलम् आनीतवान् भोगवतीं प्रिया प्रेम परिप्लुतः सैवोर्ध्वगामिनी भूत्वा तावन्मात्रेण वारिण न्यवारयं महाराज रुक्मिणीतृषमुल्बणं तद्दृष्ट्वा तच्छुणात्पन्न तद्दृष्ट्वा तत्क्षणोत्पन्न क्रोधेन प्रज्ज्वलन्निव प्रलयाग्निर्वोत्तिष्ठन् शशापकोपनो मुनिः अहो श्रीकृष्णतेऽत्यन्तं वल्लभा रुक्मिणी सता यद्भवान् मामवज्ञाय प्रिया प्रेम परिप्लुतः पायजामास पानीयं माहात्म्यं दर्शयन् स्वकम् दम्पत्योरुभयोरेवं वियोगोऽस्तु युधिष्ठिर इति यो दत्तवान् शापं स एव मुनिसत्तमः साक्षाद् रुद्रांशसम्भूतः कालरुद्रैवापरः अत्रेरुग्रतपः कल्पं वृक्षदिव्यफलं महत् पतिव्रताशिरो रत्न न सूयागर्भसम्भवा पतिव्रता शिरोरत्ना न सूयागर्भसम्भव दुर्वासा नाम मेधावी यथा वै मूर्तिमत्तपः नैकतीर्थजलक्लिन्न जटाभूषितसच्चिरा तमालोक्यसमायान्तं कुमारीशोकसागरात् उन्मज्जोत्थाय धैर्येण वन्दे चरणौ मुने न त्वा स्वाश्रममानीयं वाल्मीकिं जानकेयथा अर्घ्यपाद्यैर्वन्यफलैः पुष्पैश्च विविधैर्मुनिं स्वागतं पृच्छसा बाल पूजयामास सादं ततः सविनया राजन्च मुनिकन्यका नमस्तेस्तु महाभाग अत्रिगोत्र दिवाकरं कुतोऽधिगमनं साधो दुर्दैवाय ममाश्रमे मम भाग्योदयो जातस्तवागमनतो मुनि अथवा मत्पितुः पुण्यप्रवाहप्रेरितो भवान् सम्भावयितुं मामेव ह्यागतो मुनिसत्तमः भवादृशां पादरजस्तीर्थरूपं महात्मनाम् स्पृशन्त्याः सफलं जन्म सफलं सफलं चाद्य मे व्रतम् अद्य मे सफलं भवदृशा एवमुक्त्वा च सा बाला तूष्णीं तदग्रत, सस्मितं मुनिराहेदं दुर्वासा दुर्वासा उवाच साधु साधु द्विजसुते कुलमभ्युद्धृतं कुलम पितुः मेधारिषे सुतपसः फलमेतादृशी सुता कैलासादहमागच्छं ज्ञात्वा ते धर्मशीलतां त्वदाश्रममनुप्राप्त मरिष्यामि सम्पूजितोऽस्म्यहम् गमिष्यामि वरारोहे शीघ्रं बदरिकाश्रमं द्रष्टुं नारायणं देवं सनातनमुनीश्वरम् तपश्चरन्तं लोकहेतवे बालोवाच ऋषे त्वदर्शना देव शुष्को मेषोकसागर अतः परं शुभं भावि यस्मात्सम्भाविता त्वया समुद्भूतबृहज्ज्वालदुःखहव्यभुजं मुनि किन्न वेत्सिदया सिन्धो तन्निर्वापय शङ्कर हर्षहेतुर्नमे कश्चिद् दृश्यते सुविचारतः न नपिता न भ्राता यो मे धैर्यं प्रयच्छति कथङ्कारमहं जीवे सागर दुःखसागरपीडिता यां यां दिशं प्रपश्यामि सासा सा विभातिमे, विभाति मे मम दुःखप्रतीकारं कुरुशीघ्रं तपोनिधि न मां कामयते कश्चित् पाणिग्रहणहेतवे अतः परं भविष्यामि ृषदीति महद्भयं तस्मान्न जायते निद्रां न रुचिर्भोजने मम ब्रह्मन् मूर्षुरस्म्येव इति मे निश्चयोऽधुना इत्युक्त्वा शुमुखी बाला विरराम तदग्रतः दुर्वासास्तदुपायार्थं विचारमकरोत्तदा इति मुनितनया वचो निशम्य बहुलतमा मुनिराड्विचार्य छन्दः अतिशयकृपया विलोक्य बालां किमपि हि तं निजगादसारभूतम् इति श्रीबृहन्नारदीयपुराणि पुरुषोत्तममासमाहात्म्ये दुर्वासस्तपो वनगमनं नाम नवमोऽध्याय श्रीपुरुषोत्तमार्पणमस्तु